अथ सप्तविंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच ततः कुन्दी च राजा च भीष्मश्च सह बन्धुभिः भी ददुश्राद्धं तदा पाण्डोः स्वधामृतमयं तदा कुरोंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः रत्नौघान् विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा कृतशौचांस्ततस्तांस्तु पाण्डवान् भरतर्षभान् सर्वे पुरं वारणसाह्वयं सततं स्मानुशोचन्तः तमेव भरतर्षभं पौरदानपदाः सर्वे मृतं अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः श्वश्वः पापिष्ठदिवसाः पृथिवीगतयौवना बहुमायासमाकीर्णो नानादोषसमाकुलः लुप्तधर्मक्रियाचारो घोरःकालो भविष्यति कुरूणामनयाच्चापि पृथिवी न भविष्यति गच्छत्वं योगमास्थाय युक्तावसतपोवने माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः तथेति समनुज्ञाय सा प्रविश्य